देव्यमानपावनां घृपङ्गरं यज्ञसूत्रबिन्दुशेखरं कृपातरं नारदादियोगिबृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथ कालभैरवम्बरे शिका पुराधिनाथ कालभैरवम्बरे शूलटङ्कपाशदण्डपाणिमादिकारणं शमकायमादिदेवमक्षरं निरामयं भीमविक्रमं भी प्रभुं विचित्रताण्डवप्रियं भी काशिका पुरादिनाथभैरवं भजे भुक्तिमुक्तिदायकं प्रशस्तचारुहि निक्णन् मनोप्य हेम किञ्चिनीलसद्कटिम् काशिका पुराधिनाथ कालभैरवं भजे धर्मसेतु कथं ममार्गनाशकं कर्मपाशमोचकं सुसम्मर्गायकं स्वर्णवर्णकेशपाशोभिदाङ्गनिर्मलं काशिका पुरादिनाथ कालभैरवं वदे प्रभाविदामपादयुग्मदम् नित्यमद्वितीयभीष्टदैवतं निरञ्जनम् मृत्युदर्पनाशनं करालदं प्रभूषणम् आशिका पुराधिनाथ कालभैरवम्बरे भिन्न पद्मजाण्डकोशसन्ततिं दृष्टिपात नष्ट पापजालमुशासनम् अष्टसिद्धिदायकं कपालमालिकाधरम् का काशिका पुराधिनाथ कालभैरवम्भरे सङ्घनायकं विशालकीर्तिकायकं काशीवासिलोकपुण्यपापशोधकं का रिपुं नीतिमार्गकोविदं पुरातनं जगद्वतिं काशिका पुराधिनाथ कालभैरवम् भैरवाटकं पठन्ति मनोहरं मुक्तिसाधकं विचित्रपुण्यवर्जनं शोकमोहलोभदैन्यको भदामनाशनं ते प्रयान्तिकालभैरवाङ्घ्रिसन्निधिं ध्रुवं ते प्रयान्तिकालभैरवाङ्घ्रिसन्निजिं